श्रीसूर्यकवचस्तोत्रं याज्ञवल्क्य उवाच श्रृष्वमुनिसार्दूल सूर्यस्य कवचं शुभं शरीरारोग्यदं दिव्यं सर्वसौभाग्यदायकं दे दीप्यमानमुकुटं सुरन् मकरकुण्डलं ध्यात्मा सहस्रकिरणम् श्रोत्रमे द्युदीरये स्थिरो मे भास्करः पातु ललाटं मे मि तद्युतिः नेत्रे दिनमणि पातु श्रवणे वासरेश्वरः घ्राणं घर्मघृणी पातु वदनं वेदवाहन जेवा मे मानद पातु कण्ठं मे सुरवन्दितः स्कन्धो प्रभाकरः पातु वक्षः पातु जनप्रियः पातु पादो द्वादशात्मा सर्वाङ्गं सकलेश्वरः सुरीयरक्षात्मकं सोत्रम् लिखत्वा भुर्जपत्रके दधाति अकरे वसगा सर्वसिद्धया सुस्नातो योजपे सम्यक योधीते स्वस्थमानसरोगमुक्तो दीर्घायु सुखं पुष्टिं च विन्दति